वितर्कयन्तम् तु नरर्षपस्तथा युधिष्ठिरोऽभेत्य विराटमब्रवीत् सम्राट् विजानात्यः जीवनातिनम् विनष्ट सर्वस्वमुपागतम् द्विजम् इहाहमिच्छामि तवा न घान्ति के वस्तुम् यथा कामचरस्तथा विभो तमब्रवीत् स्वागतमित्यनन्तरम् राजा प्रहृष्ट राजा प्रीत्यात्मना चैनमिदम् भवासे कामेन ताताभिवदाम्यहम् त्वाम् कस्यासि च नामापि किञ्चापि शिल्पम् तव विद्यते युधिष्ठिर उवाच युधिष्ठिरस्यासमहम् पुरा सखा वैयाघ्र पद्यः विप्रः अक्षान् प्रयोक्तुम् कुशलोऽस्मि देविनाम् कङ्केति नामास्मि विराट उवाच ददामि ते हन्त वरम्यमिच्छसि प्रसादि मत्स्यान्वश गोह्य हन्तव प्रियाश्च धूर्ता मम देवि भवान् च देवोपमराज्यमर्हति युधिष्ठिर उवाच प्राप्तो विवादः प्रथमम् विषांपते न विद्यते कञ्च नमस्य हीनतः न मे जितः कश्चन धारयेद्धनम् वरो मम इषोऽस्तु तव प्रसादजः विराट उवाच अन्यामवश्यम् यदि ते प्रियम् चरेत् प्रव्राजयेयम् विषयाद्विजांस्तथा शृण्वन्तु मे जानपदा समागता कङ्को यथाहम् विषये प्रबुस्थथा समानयानो भवितासि मे सखा प्रभूतवस्त्रो बहुपानभोजनः पश्येस्त्वमन्तश्च बहिश्च सर्वदा कृतञ्च ते ुरवृत्तिकर्षिताश्च तेषाम् दास्यामि सर्वम् तदहं दास्यामि संशयो न ते भयम् विद्यति सन्निधौ मम वैशम्पायन उवाच एवम् त राज्ञ प्रथमसमागमो बभूवमात्स्य युधिष्ठिरस्य च विराट हितेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना तमासनस्तम् प्रियरूप दर्शनम् सभाञ्च ताम् प्रज्ज्वलयन्युधिष्ठिरः श्रिया यथा शक्रैव त्रि विष्टपम् एवं सलब्ध्वा तु वरम् समागमम् एवं स लब्ध्वा तु विराटराजेन नर्ष भस्तदा उवास धीरः परमार्चितः सुखी न